धिकशततमोऽध्यायः वैशम्पायनोवाच ततः समुनिषार्दूलस्तानुवाच तपोधनान् दोषतः कम् गमिष्यामि न हि मेन्योपराध्यति तम् तथा बहुतिधेहनि न्यवेदयंस्तथा राज्ञे यथावृत्तम् न तेषाम् निश्चित्य सहमन्त्रिभिः प्रसादयामास तथा शूलस्थम् ऋषिसत्तमम् राजोवाच पकृतं मोहादज्ञानादृषिसत्तमा प्रसादयेत्त्वाम् तत्राहम् नमे नमेत्वं क्रोद्धुमर्हसि वैशम्पायनो वाच एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः कृतप्रसादं राजा तम् अवतार्यच समवतारयत् अवतार्य च शूलाग्रात् तच्छूलम् शूलं अशक्नुवंश्च निष्क्रष्टुम् शूलम् मूले सचिच्छिदे स तथान्तर्गतेनैव शूलेन तेनाति तपसा लोकान विजिज्ञे दुर्लभान्परैः अणीमाण्डव्य इति च ततो लोके सु गीयते स विप्रो धर्मस्य परमात्मवित् आसनस्थं ततो धर्मं, दृष्टोपालभत प्रभुः किम् नु तद्दुष्कृतम् कर्म यस्येयं कृतमजानत यस्येयम् फलनिर्वृत्तिरीदृश्या मया, यस्ये फलनिर मया शीघ्रमाचक्ष्वमे तत्त्वम् पश्यमे तपसो बलम् धर्म उवाच पतङ्गिकानाम् पुच्छेषु त्वये शीका प्रवेशिता कर्मणस्तस्य प्राप्तं प्राप्तम् फलमेतत्तपोधन स्वल्पमेव यथा दत्तम् दानम् बहुगुणम् भवेत् अधर्म एवम् विप्रश्ये बहुदुःखफलप्रदः अणीमाण्डव्य उवाच कस्मिन्काले मया तत्तु कृतं ब्रूहि यथा तथम् तेनोक्तो धर्मराजेन बालभावे त्वया कृतम् अणीमाण्डव्य उवाच बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यन्ति वैदिशः अल्पेऽपराधेऽपि महान् मम दण्डस्त्वया गरीयान्ब्राह्मणवधः सर्वभूतवधादपि शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि मर्यादाम् स्थापयाम् यद्य लोके धर्मफलोदयाम् आचतुर्दशकाद्वर्षान् न भविष्यतिपातकम् परतः कुर्वतामेवम् दोष एव भविष्यति वैशम्पायन उवाच एतेन त्वपराधेन शापात महात्म धर्मो विदुरूपेण शूद्रयोगयत धर्मेधे चुशल लोभक्रोध विवर्जि दीर्घदर्शी शमपर क्रूण महाभार आदिपर्णिभवर्वण अणी मंडव्योप्या सप्ताकशतमोध्या